क्रीडा गणेशपुराण क्रीडाखंडम अध्यावाच ततप्राद समय गुरां ध्या सभाज्य चमृत् नाखिला जग्मीं दिशंत्रीषेदजिह्वा विशोख्य च स्नात्वा सन्ध्यामुपास्यैदा विष्ठन् देवान् पूजदुः सम्पूज्य ब्राह्मणान् भक्त्या दददुर्धनवासी आद्यमालोक्य कांस्यस्थं ददुर्ब्राह्मणाय तद सदक्षिणं समालोक्य दर्पणं निर्मलं तथा परिधाय विचारं चक्रतुस्तु तौ ज्येष्ठ उवाच अहं विजेष्येश्वर्लोकान् वरदानान् महे सिधुः मृत्युलोकं च पादालं जय त्वं तत्प्रसादः क उवाच एवं तौ निश्चयं कृत्वा विलोक्य शुभवासरम् एको ययौ स्वर्लोगं वायुवेगसमोजवे यादोमरावधीं तत्र बभञ्जाराममण्डलं बध्वा परिकरम तस्थौ शक्रस्य पुरदो बली कोलाहलो देवानाम धावतां भृशं कोयं कोयम् कथं यादो कस्मादिन्द्रसमीपतः घ्नन्तु बध्नन्तु सुदृढं दूरीकुर्वन्त्वमुं नरम् नरं ते धावमानास्ते सर्वे तेन निराकृताः उड्डीयोड्डीयसहसा निपात्य च पुनः पुनः तदुड्डानान् निपतितास्त्रीगर्भाश्च महाद्रुमाः कम्पिता पृथिवी सर्वा सपर्वदवनाकरा तदङ्गदीप्त्या श्यामास्ते जादा विबुधसप्तमाः यथा मयजिदो मर्त्यो यादिसद्यो विवर्णतां तद्वत्तद्दर्शनात् सर्वे विवर्णत्वं गतासुराः इन्द्रोऽपि विह्वलो जादो विवर्णश्च तदा मुने केचिद्दश दिशो यादाः सन्नद्धा केऽपि चाभवन् केचित्तं चरणं यादा के के अत्यधीरासुराधमः तद इन्द्रश्च दुर्दन्तं वज्रहस्तः समारुहद जगर्ज सुमहाभीमं चगम्बे भुवनत्रयं किं पश्यतेत्युवाचैनान् सन्नद्धान् सुरसप्तमान् पौरुषं क्व गदं तावद्यावदत्र गदो सुरः तदस्ते पुरदो जग्मुः सङ्ग्रामाय कृदो व्यमाह सद्योत्सुकान्सुरान् प्रेक्ष्य प्रोजे देवान्धको हरिं किमर्थं श्रमसे शक्रविचारय वरान् मम अन्धको भयसन्त्रस्तः पलायनपरोगतः तृणप्रायं तु देवज्रं मन्येऽहं शङ्कराज्ञया मच्छ्वा सात् सर्वदोयान्ति देवास्त्वदृष्टिवर्तिनः श्रूयता मध्वजशक्र सां नैव दीयता मम पदानि स्वानि सर्वाणि यत्र कुत्रचिद् अन्यथा सकलं हित्वा वृथा मृत्युं पयास्यसि देवान्तकेदिमन्नाम न जानासि कथं सुर क उवाच इति तद्वचनं श्रुत्वा बिभिदे हृदयं हरेः शक्रस्य च मुखादग्निप्रबलो निर्गतो बहिः अधितप्ते यथा तैले जलपादाद्यथा भवेद तद ऊचे महेन्द्रस्थं क्रोधा वेषसमन्वितः त्वादृशाः कदि कदि न निहदा दानवात्मया त्वमिदानीं वराद्गर्वादागदोऽस्य सुराधम वज्रपादादो नूनं धरण्यां निपतिष्यसि अन्यपदप्रधानो हि समासो नाम्नि बली तदशक्रोहनत्तं तु वज्रेण दृढमुष्टिना वज्रं तच्छ तथा यथा देवान्तकोच्छिन्नरो तदोस्सौ मुष्टिना जकान सुरसत्तमं न सुरसतमं भूमौ वादाहद इवद्रुमः द्रुमः पौरुषम् तस्य बुद्ध्वैव पपालबलसूदनः अधाव द्वे गधपृष्ठे सिंहो मृगगणानिव व्यादाय भीषणं वक्त्रम् पलन्तं तमुवाचसः पलायसे किमधुना वल्गनाक्व ददा सम्मुखो भव शक्रत्वं सर्वदेवगणैः सह असम्मुखपलायन्दं न हन्दि वीरसप्तमः स्वयं तत्पुरदो भूत्वा मारयामासतान् सुरान् मुखे च पेड़िका दत्वा गदा सूस्ता द्रमय्वा तत बोधयाम सूतले लया मुष्टिना कांशिकुर्परा तराे गृही प्राणखादम चकर्ष चरा सुरा जानुनी भीत्वा, किच्चिज्ज्जानी भांचिच्च भुजुग्म कचिचिप दूरदीता उत्थान पैदा केजिकुबास्तुरा के केजिन्ख प्रहारम चक्रुर्गंधु मनीश्वरा केजित् कर्कयामः सुर्मनसा दुःखिते न च अकस्मात् प्रलयं किन्नुप्रारभत् जगदीश्वरः सुविशीर्णाः सुरात् सर्वे गजा सिंहाद्विधा यथा तदस्वयं जगर्जाशु जयशालीसुरान्दकः यथामेकेषु गर्जत्सु गर्जदे बर्हिमण्डली भास्करीं भास्करस्त्यक्त्वा यादो दूरतरं तदः सर्वेऽपि पबलोर्देवा स्वस्व स्वस्वपदानि च तदस्वयं चक्रपदे तस्थौ निर्भयचेदसा सर्वे सुरागदाहैम गिरिगह्वरमुत्तमं कन्दमूलफलान्यादन्निन्योर्दुःखेन वासरान् तदो गुर्भूदलादिग्भ्यो सङ्ख्यया दैत्यदानवाः चक्रोर् सुरांतके नाना नानाविधैर्द्रव्यैर्नातीर्थाहृदैर्जलैः नानर्षिमन्द्रह्निचयैरभिषेकं सुरान्तके शङ्खभेरिमृदङ्गादिदुन्दुभीनां च निःस्वनैः ऊचुस्तं स्वामिनं दैत्या दृगदैत्यकुलेन चादो वा भविताज्ञा कौ तो न उवाच यमेका जिता शक्रपुर गा्यम चकारदेवरक्षम तदो यम सदैत्यकोटिसमन्वितः ब्रह्माभिप्रयययौ तत्र यत्र देवाः पुरा गताः तत्रैगं नायकं स्थाप्य वैकुण्ठमगमच्च सह ब्रह्मणो यानमारुह्य कदाचिच्चाक्रमे च लक्ष्म्या सह ततः पूर्वं क्षीराब्धिं अत्याप्तं परं मम दैत्यं तत्र स्थाप्य व्यचारयद किं मया न जिदं दैत्या ब्रुवन्तु यामि तत्र वै ते देवानां विषय क्वचिद लोकपालपदे स्थाप्य नाना दैत्याञ्जनस्य च माँ त्यवज्रोत्वा मुदा परमयायुध देवाकसौ तवाक्यम सम्यगीर गणेशपुराणे क्रीडाखंडे तृतीय ओम।